श्रीहरे नमः अथ त्रिचत्वारिंशोऽध्यायः श्रीशुक रामश्च कृतौ शौचोपरन्तभां मल्लदुन्दुभि निर्घोषं श्रुत्वा द्रष्टुम् उपेयतुः रंगद्वारं समासाद्य तस्मिन्नागमवस्थितम् अपश्यत्कुवलया पीढं कृष्णों भष्टः प्रचोदितं भत्वा परिकरं शौरे समोह्यकुटिलालकान् उवासहस्तिपं वाचा मेघनाधगभीरया अम्भष्टाम्भष्टमार्गं नो देह्यपक्रममाचिरं नो चेत् त्वाद्य नयामि यमसाधनं एवं निर्भत्सितों भष्ट कुपितः कोपितं गजं गरीन्द्रस्तमभिद्रुत्य करेण तरसा ग्रहीत् कराद्विकलितः सोमं निहत्याीष्वलीयत सङ्गृद्धस्तम् अचक्षाणो घ्राणदृष्टिः स केशवं परामृसत् पुष्करेण विचकर्षयता नागं स्वपर्णयिव लीलया सपर्यावर्तमानेन सव्यदक्षिणदोच्युतः पभ्रामभ्राम्यमाणेन गोवत्सेनेव बालकः प्राद्रवन्पातयामासे पातयामास सम्पृश्यमानः पदे पदे सधावन्क्रीडय भूमौ पतित्वा सकसोत्थितः तं मत्वा पतितं क्रुद्धो स्वविक्रमे प्रतिहते कुञ्जरेन्द्रोऽत्यमर्शितः शोध्यमानो महामात्रे कृष्णमभ्यत् अवदृश तमापतन्तम् आसाध्य भगवान् पादयामासभूतले, निगृह्य पाणिनाहस्तं पतितस्य पदाभ्रम्य मृगेन्द्रयिवलीलया दन्तमुत्पाट्य ते नेभम् हस्तिपांश्चाहनत् हरिः मृतकं द्विपम् उद्दृश्य दन्तपाणिः समाविशत् अंसन्यस्तविषाणो शृङ्गमदबिन्दुभिरङ्गितः विरूटश्वेतकणिका वदनाम्बुरुहो बभौ पृथौ गोपै कतीपये भलदेव रङ्गं विविसतूराजन् राजन् गजदन्तवरायुधौ मल्लानामस निर्नृणां नरवर स्त्रीणां स्वरो मूर्तिमान् गोपानां स्वजनो सतां क्षितिभुजां सास्ता स्वपित्रो शिशुः मृत्युर्भोजपतेर्विराडभिषूधां तत्त्वं परं योगिनां वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः हतं कुवलया पीडं दृष्ट्वा तावपि दुर्जय कंसो मनस्वयपि तदा भृशमुद्विजे नृप तौरेजतु रङ्गतौ महाभुजौ विचित्र वेषाभरणस्रगम्भरौ यता नटावुत्तमवेषरिणौ मनश्शिपन्तौ प्रभया निरीक्षता निरीक्षतावत्तम पुरुषौ जनामञ्च स्थिता नाघरराष्ट्ररका नृप प्रकर्षवेगोत्फलिते शणानना पपूर्नतृप्तानयनैस्तधाननं पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वयां जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः ऊचु परस्परं ते वै यथा दृष्टं एतौ भगवतः साक्षात् हरेर्नारायणस्य हि अवतीर्णाभिहांसेन वसुधेवस्य वेश्मनी एष वैकिलदेवख्यां जातो नीतस्य गोकुलं कालमेतं वसन्घूटो ववृधे नन्दवेश्मनी पूतनानेन नीतान्तं चक्रवातश्च धानवः अर्जुनो गुह्यः केशी धेनुकोऽन्यच्च तद्विताः गावस्स पालाये तेन तावाग्ने परिमोचिताः कालियोधमितः सर्प इन्द्रश्च विमधकृतः सप्ताहमेकहस्तेन धृतो वर्षवातासनेभ्यश्च परित्रातं च गोकुलम् गोप्योऽस्य नित्यमुदित हसितप्रेक्षणं मुखं पश्यन्त्यो विविधां स्तापां स्तरन्ती समाश्रमम् मुधा वदन्त्यनेन वंशोऽयं यतो शुभहुविश्रुतः श्रियं यशोमखत्वं च लभ्ये रामः कमललोचनः प्रलम्बो निहतो येन वत्सको ये भगाधयः जनेष्वेवम्ब्रुवाणेषु तूर्येषु निनदत्सु कृष्णरामौ समाभाष्य चाणोरो वाक्यमब्रवीत् हे नन्दसुनो हे राम भवन्तौ वीरसम्मतौ नियुद्धकुशलौ राज्ञाहूतौ दिद्रक्षणा प्रियं राज्ञ प्रकुर्वन्त्य श्रयो विन्दन्ति मनसा कर्मणा वाचा विपरीतमतोऽन्यथा नित्यं प्रमुदिता गोप वत्सपालायता स्फुटं वनेषु मल्लयुद्धेन क्रीडन्तश्चारयन्ति गाः तस्मात् यूयम् वयं च करवामहे भूतानि नः प्रसीदन्ति सर्वभूतमयोनृपः तन्निशं व्याभ्रवीत्कृष्णो देशकाल उचितं वचः नियुद्धमात्मनोऽभीष्टं मन्यमानोऽभिनन्द्य च वयं चापि वनेचराः करवाम प्रियं तन्नः परमनुग्रहः बाला वयं तुल्यभलैः यदोचितं भवेन्नियुद्धं माधर्म स्पृशेन्मल्लसभासदः चाणूर उवाच न बालो न किशोरस्त्वं बलश्च बलिनां वरः लीलये भो कतो येन सहस्रदिवसत्वभृत् तस्माद् भवद्भ्यां बलिभेर् योद्धव्यं नानयोत्रवै मयि विक्रमवाष्णेय बलेन सखमुष्टिकः इति श्रीमद्भागवते महापुराणे दसमस्कते पूर्वार्दे कवयापीटवधो नाम सर्वत्र गोपिका जीवनस्मरणं गोविंदा गोविंदा गोविंद सद्गुनाथ महाराज की जय